मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं फोर्टिफोर् मदासुरस्य राज्याभिषेकं श्रीगणेशाय नमः प्रह्लाद उवाच श्रुतं च्यवनमासात्म्यं विश्रान्तं मे च मानसं मदस्य चरितं ब्रूहि किं चकार महामुने मुद्गल उवाच एवं पृष्टो गृत्समदो महायोगी प्रतापवान् गाणपत्यवरिष्ठश्चोवाच तच्छृणुसादरम् गृत्समद उवाच शृणु प्रह्लादमाहात्म्यं मदस्य क्रमसंयुधं च्यवनेन स संसृष्टो मदःपादाधमाययौ विचार्य बलवन्दैत्यैर्ययौ शुक्रं महामुनिं तं प्रणम्य स्थितो दूरं बद्धाञ्जलिपुडो मदः विनयेन समायुक्तं मदं दृष्ट्वा स भार्गवः काव्यस्थं मानयामासुदः वदस्वमाम् ततः सहर्षितो भूत्वा जगादमुनिसत्तमं च्यवनाच्च समुत्पन्नं भार्गवं विद्धि मुने तव भ्रातृसुदों वैशरणं त्वामुपागतः शिष्यं मां कुरु यनाकं मानिदो भुवि ब्रह्माण्डस्य महद्राज्यम् कर्तुमिच्छामि भार्गव मदोऽहं मदरूपेण जेष्यामि त्वत्प्रसादः इति तस्य वचश्रुत्वा नाधिहृष्टेण चेतसा मदं तं शिष्यभावेन जग्राहमुनिसत्तमः शक्तिमन्त्रं ददौ तस्मै कविःसर्वार्थकोविदः क्षरिध सहित भागवाग्रणी स ययउ तम नमस्कृत वन तपसि संस्थित निराहारयु दैत्यशक्ति ध्यानपरायण तस्य देश वमीको बहु काल लता लतातरुसमायुक्तस्तथापि तपसि स्थितः अस्ति मात्रावशिष्ठोऽभूदजपन्मनुमादराद ध्यानं साङ्गं चकारासौ स्थिरचित्तेन तापसः दिव्यवर्षसहस्राणि पञ्च वै तपथः गतानि दैत्यराजेन्द्रादुरं सर्वं तदाभवद तदशक्तिर्ययौ तस्याश्रमे भक्तिप्रभाविता सिंहारूढा महाभागा शक्तिभिः संवृता परा पुरुषाकृतिसंस्थादु तदधीनाश्चरन्दिताः पुरदो भक्तिसंयुक्ताः प्रकृतीनां महाबलाः बोधयामास सा शक्तिरादिमाया मदं तदः स्वभक्तं तापसं नैव स बुबोधमदासुरः तदस्तया जलेनैव मार्जिताङ्गो महामदः सावधानो भवत्तत्र दृष्ट्वा शक्रिं समुद्धिदः तां प्रणम्यमहाभक््या पूजयन्भक्िसंयुधः कृत्वा करपुडं देवीं तुष्टावच यथामधि मद उवाच नमामि त्वां महामाये सर्वशक्रिसमन्विताम् त्वदाधारमिदं सर्वं चक्रियुक्तं प्रवर्तते अनादिमप्रमेयान् त्वां न जानन्ति महर्षयः वेदान्तवेद्यरूपां वै नमामि परमेश्वरीं नानाभेदकरीं देवीं नानाभेदविवर्जिताम् भेदाभेदमयीं त्वाहं नमामि सकलेश्वरीम् पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहं त्वां स्वाहां त्वां स्वधां चैव वषत्कारात्मिकां शिवाम् बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् सिद्धिदा सर्वकार्येषु सिद्धिरूपां तपस्विनीं योगिनीं योगदात्रीं वै योगेशीं त्वां नमाम्यहम् स्वां स्तों न समर्थाये मुनयो वेदवादिनः देवास्कन्दश्च शेषश्च तत्राहं स्तौमि किं परां धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यद यत्तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् इत्युक्त्वा संस्थितस्तूष्णीं भावेन स तमुवाच महाशक्तिर्भक्तिभावेन यन्द्रिता शक्रिरुवाच त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनं भविष्यदि महाभाग सर्वकामफलप्रदम् धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति पठतां शृण्वतां सर्वं सुखदं च महासुर वरान्वर यदास्यामि त्वया स्तोत्रेण तोषिता तपसोऽग्रेण दैत्येन्द्र दुर्लभान् मनसि स्थितान् गृत्समद उवाच देव्या वचनमाकर्ण्य हर्षितः स मदासुरः तां प्रणम्य जगादाध वरान् परसुदुर्लभान् मदासुर उवाच यदि देवि प्रसन्ना यदि देया वराः पराः तर्हि मे मरणं कुत्र न भवेत्त्वम् तदा कुरु देहि मे सकलं राज्यं त्रैलोक्यस्य जगन्मयि यद्यदिच्छामि तत्तद्वै प्रसिध्यतु सदाशिवे त्वं च प्रकृतिरूपा वै त्वत्तत्सर्वं समुद्भवं पञ्चथा तन्ममाधीनं जननित्वं सदा कुरु ततस्तं जगदम्बासोवाच विस्मितमानसा यदुत्पन्नं महादैत्य तस्मात् ते मरणं न हि पञ्चधा यद्विभक्तं तत्तवाधीनं भविष्यति यद्यदिच्छसि तत्तद्वै सफलं सर्वदा भवेत् आरोग्यमचलं राज्यं ब्रह्माण्डस्य भविष्यति न समस्ते च दैत्येन्द्र युद्धे कश्चिद् भवेदपि इत्युक्त्वा देवी जगन्मादा सुरेश्वर मदश्च हर्षितोऽत्यन्तं स्वगृहम् प्रमादासुरकन्यां वै सालसां रूपशालिनीम् उपये विधानेन दैत्यै सम्मानिदो भृशम् विलासदं तदस्तेन नगरं वासिदं वासिदम्बभौ तत्रायययुश्च वासार्धं दिग्भ्यो दैत्या महासुराः अमात्यास्तस्य चत्वारः संजादा लोकविश्रुताः बाणस्त्रिपुरनामा वैतारकशङ्खसञ्ज्ञकः दैत्यैस्तत्र समानीधकविः परमयो गविद ब्राह्मणैः सहतं राज्ये शिषे च स मदासुरम् दैत्यानां राक्षसानां चासुराणां पदिरादराद जादो मदासुरस्तत्र हर्षिता दैत्यपा बभुः पुत्रास्त्रयः समुत्पन्नाः मदासुराद विलासी धनप्रिय इति एवं राज्यं चकारासौ दैत्या नाम सुरेश्वरः गर्वेण ना तेन वाको वै न ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः ओम्